सप्तत्यधिकशततमोऽध्यायः अर्जुनो वाच तापत्य ज्ञातुमिच्छामि तापत्यार्थम् विनिश्चितम् तपती चैषा तापत्या यत्कृते वयम् वयम् साधो तत्त्वमिच्छामि वेदितुम् वैशम्पायनो वाच एवमुक्तस्य स गन्धर्वः श्रावयामास वै कथाम् हन्तते कथयिष्यामि कथामेताम् मनोरमाम् यथावदखिलाम् पार्थ सर्वबुद्धिमताम् वर उक्तवानसि येन त्वाम् तापत्य इति यत्त्वचः तत्तेऽहम् कथयिष्यामि शृणुष्वैकमना भव य नाकम् व्याप्नोति तेजसा एतस्य तपती नाम बभूव सदृशी तपती तपसायुता नदेवी नासुरी चैव न यक्षी च राक्षसी नाप्सरा न च गन्धर्वी तथारूपेण काचन सुविभक्ता न वद्याङ्गी स्वसितायतलोचना स्वाचारा चैव साध्वी च सुवेशा चैव भामिनी न तस्याः सदृशम् लोकेषु भारत भर्तारम् सविता मेने रूपशीलगुणः श्रुतैः सम्प्राप्त यौवनाम् पश्यन् नोपलेभे ततः शान्तिम् सम्प्रदानम् अथर्क्ष पुत्रः कौन्तेय कुरूणाम् ऋष भो बली सूर्यमाराधयामासन्नृपः संवरणस्तदा अर्घ्यमाल्योपहाराद्यैर्गन्धैश्च नियतः शुचिः नियमैरुपवासैश्च तपोभिर्विविधैरपि शुश्रूषुरन दातुमैच्छत्ततः कन्याम् तस्मै संवरणाय ताम् नृपोत्तमाय कौरव्यविश्रुताभिजनाय च यथा हि दिवि दीप्ताम् शिःप्रभासयति तेजसा तथा भुवि महीपालो दीप्त्या संवरणोऽभवत् यथार्चयन्ति चादित्यमुद्यन्तम् ब्रह्मवादिनः तथा संवरणम् पार्थ ब्राह्मणा वरजाः प्रजाः न आदित्यमति तेजसा बभूवन् नृपतिः श्रीमान् सहृदाम् दुर्हृदामपि एवम् गुणस्य नृपतेस्तथा वृत्तस्य कौरव तस्मै दातुम् मनश्चक्रे तपतीम् न कदाचिदथो राजा श्रीमानमित विक्रमः चचारम् मृगयाम् पार्थ पर्वतोपवने चरतो मृगयाम् तस्य क्षुत्पिपासा समन्वितः ममारराज्ञः कौन्तेय गिराव प्रतिमोहयः संवृताश्वश्चरन् पार्थ पद्भ्यामेव गिरौ नृप ददर्शा सदृशीम् लोके कन्यामायतलोचनाम् स एक एकामासाद्य कन्याम् परबलार्दनः तस्थौ नृपति शार्दूलः पश्यन्न विचलेक्षण सहिताम् तर्कया मास रूपतो नृपति श्रियम् पुनः सन्तर्कया मास रवेर्भ्रष्टामि वप्रभाम् वपुषा वर्चसा चैव शिखामि व तस्यारूपेण स गिरिर्वेषेण च विशेषतः स सवृक्षुपलतो हिरण्मय इवाभवत् अवमेने च ताम् दृष्ट्वा सर्वलोकेषु योषितः अवाप्तम् चात्मनो मेने स राजा चक्षुषः फलम् जन्म प्रभृति यत्किञ्चित् दृष्टवान् न सदृशम् तस्यास्तर्कयामास किञ्चन तया बद्धमनश्चक्षुःपाशैर्गृणमयैस्तदा न च च किञ्चन अस्या नूनम् विशालाक्ष्याः सदेवासुरमानुषम् लोकम् निर्मध्य धात्रेदम् रूपमाविष्कृतम् कृतम् एवम् सन्तर्कयामास रूप द्रविण सम्पदा कन्याम सदृशीम् लोके नृपः ताम् च दृष्ट्वैव कासिकस्यासिरम्भोरु किमर्थम् चेह तिष्ठसि कथं च निर्जनेरण्ये चरस्येकाशु चिस्मिते त्वम् हि सर्वानवद्याङ्गी सर्वाभरणभूषिता विभूषणमिवैतेषाम् भूषणानामभीप्सितम् न ना देवीम् नासुरीम् चैव न यक्षीम् न च राक्षसीम् न च भोगवतीम् मन्ये ना ना मन्ये त्वामहम् मत्त काशिनि दृष्ट्वैव चारु वदने चन्द्रात् कान्ततरम् तव वदनम् पद्मपत्राक्षम् माम् मथातीवमन्मथ एवम् ताम् समही पालो बभाषे न तु सा तदा प्रत्यभाषत किञ्चन ततो लालप्यमानस्य पार्थिवस्यायतेक्षणा सौदामिनी वचाभ्रेषु तत्रैवान्तरधीयत तामन्वेष्टुम् स परिचक्राम सर्वतः वनम् वन च अपश्यन सतुता बहुत त्र विलप्य निश्चे पार्थिव श्रेष्ठ मुहूर्त सव्यतिषत ही श्री महाभारते आदिपर्वि चैत्ररथ पर्व तप्युपाख्या शत